मार्कण्डेयपुराणम् अध्यायं 116 एण्ड् सिक्स्टीन् विविंशचरितवर्णनं मार्कण्डेय उवाच क्षुभकनित्रपुत्रस्तु प्राप्यराज्यं यथा पिता पालयामास पालयामासप्रजाधर्मेण रञ्जयन् सदानशीलो यष्टा च यज्ञानामवनीपतिः समःशत्रौ च मित्रे च व्यवहारादिवर्त्मनि एकदा समहीपालो निजस्थानगदो मुने सुदैरुक्तो यथा पूर्वं क्षुभो राजा तथा भवद ब्रह्मणस्तनयः पूर्वं क्षुपो भूपृथिवीपतिः यादृक्चरितमस्यासि तादृक्तस्यैव चेष्टितम् राजोवाच श्रोतुमिच्छामि चरितं क्षुपस्य सुमहात्मनः यदि तादृङ्मया शक्यं चेष्टितुं तत्करोम्यहम् ऊचुः स चकाराकरान्भूपराजा गोब्राक्मणान्पुरा षष्ठांशेन कृता चोर्व्यामिष्ठिस्तेन महात्मना राजोवाच तेषां महात्मनां राज्ञां को नु यास्यदि मद्विधः तथाप्युत्कृष्टचेतानाम् चेष्टासूद्यमवान्भवेद् तच्छ्रूयतां प्रतिज्ञाया साम्प्रतं क्रियते मया क्षुपस्यानुकरिष्यामि महाराजस्य चेष्टितम् मार्कण्डेय उवाच यदि प्रतिज्ञाय वचः क्षुपस्तत्कृतवांस्तथा तस्यापाते स यज्ञां स्त्री न यजद्यचतां वरः गोब्राह्मणाः पुराराज्ञा मददद्यं च वैकरं तावत्सङ्ख्यमदाद्वित्तमन्यद्गोब्राह्मणाय सः तस्य पुत्रो भवद्वीरः प्रमदायामनिन्दिदः यस्य प्रतापशौर्याभ्यां कृता वश्या महीभृतः तस्यापि नन्दिनी नाम वै दर्भीतयिता भवद विविंशं तनयं तस्यां जनयामास सप्रभुः विविंशे शाश्वति महीं महीपाले महौजसि महीतलमभुद्व्याप्तं निरन्तरतया नरैः ववर्षकाले पर्जन्यो मही सस्यवती तथा सुफलानि च सस्यानि रसवन्ति फलानि च रसाः पुष्टिकराश्चास्सन् पुष्टिर्नोन्मादकारिणी न वित्तनि च या नृणां प्रभुदां मदहेतवः तत्प्रतापेन रिपवो भयमापुर्मः मुने स्वास्थ्यं जनःसुहृद्वर्गो मुदमाप सुपूजितः इष्ट्वा स यज्ञान् सुबहोन् सम्यक् सम्पाल्य मेदिनीं प्राप्य शक्रलोकमितो इति श्रीमार्कण्डेयपुराणे विविंशचरितं नाम षोडशाधिकशतमोऽध्यायः ओ